ष्टम् ओम् शान्तिः शान्तिः शान्तिः विरुद्धपरिमितम् यषः कामाः हे ब्रवन् एः प्रथमञर्चात् सर्वेषाम् नष्टस्रहासे एषाः कुरुक्षेत्रम् वेदिरासेनपि नाथासेन पूर्भ्यमुत्परार्थः परेण द्रहणार्थः परव उत्करः तेदा मखम् वै कवय्यस आर्च्छद कन्यकामय तन्नेव निवायन्त्समानाः तस्य अन्तागतस्य सव्यार्थ दक्षिणा विधवः तस्मादृशन्म पुण्यजन्म यज्ञजन्मा हिंसन्तम् तस्मागैकमिषधन्विनम् बहवन्वानाभिशृष्णवन्ति सोऽम् आदन्तम् बहवो शून्यमृजुः ते श्यामाकाभवन् स्वयागावेनामैते तत्स्वयागानागस्मया गत्वा तस्माद्ये खितेनाभिष्यस्मै भव्यम् एतदभिद्य समपि दुष्कभ्या तिष्ठते ताहुपदेकाब्रुवन्वनम् गृणामहे अथ विलघुम् रन्थयाम यत्रक्वशनाम प्रथमाभिरुदामे तस्मादुपदेका यत्रवशनन्ते प्रथमाभिनन्दन्ते पारेव तज्ञा सा तस्यमप्यन् तस्य प्रमाणवर्ते्या वा न प्रावर्तन यत्रावर्तत तत्प्रवर्गस्य प्राज्ञत्वम् यद्धा <Sessizia> इत्यवद्धर्मस्य धर्मत्वम् महतो वेर्यमपफे तन्महावीरस्य महावीरत्वम् यस्याः समभरन् तत्सम्राज्ञ्राट्रम् अग्रस्थितम् देवताः श्रेधाव्यगृह्णता अग्रप्रादः सवनम् इन्द्रममाध्यन्तिसवनम् विश्वे जावास्त्रीवनम् तेनापुषे कृष्णायज्ञेन यजमानाः नाविदमारुन्धदा ना न सुवर्गम् लोकमभ्यजयन् ते देवाश्विनावब्रुवन् भेजो वैस्थः यज्ञस्य प्रलिषत्वमिते तावब्रूताम् कृत्तिसत्ता यत्र वर्ग्यः केन सुजयेषर्णा यज्ञेन यजमानाः अवायुतोन्धरा अभिजवर्गण्डोकमजयन् यत्र वर्गम् प्रवृणक्ते यज्ञश्रैवदच्छादे तेन सुजेर्णा यज्ञेन यजमानः अवायुजोरुन्धे अभिजवर्गण्डागण्डेजे तस्मादेशः ञ्जहोके चतुर्भिहेदेहोदे चतुष्पादप्रसवः पशोनेवावृन्ध्योः ऋक्ष्वतिष्ठते सन्दान् नवो भागानि हव्यम् वक्ष्यामि तेभ्येन चतुर्भिहे नवसान् रोटवाक्याय याज्यायै देवदाय वठाय चतुर्विहेण जहोदे सन्द्रागस्येणादि अन्यस्य प्रेतानि देवेभ्याह्व्यम् वहन्ते ब्रह्मवादिना वदन्ते होतव्यन्ते क्षिदस्य गृहाः इतव्या यद्युभूयात् अविष्कृतैयमानमग्नौ प्रदध्यात् यन्दर्यभूयात् यज्ञपुरन्तर्यात् यदि विष्कृतमानमग् प्रदधायदन्तरे गायत्री छन्दाकस्य मन्यत तस्यैव कालापराविशत् पशोनर्धः यः पृथिवीम् प्राविशत् सखदिरो भवशो यत्खादुर्भवति छन्दता मेमरेन यज्ञस्य हरोदुम्बरे ओर्गादुदुम्बरः ओदेव यज्ञस्य शिरःसम्भरे यज्ञै नवे ये वेणः यजदेव यज्ञस्य शिरःसम्भरे यद्वैगङ्गते भा एवावृन्धे देवस्यत्वादविप्रथमेत्यभिमादत्ते प्रथमगाक्ये अश्विनाः बाहुभ्यामित्याह अश्विनोभि देवानामध्वर्यो आस्तान् हस्ताः अभ्यामित्याहयत्यै अभ्यन्ते अभवैत्याः यज्ञोरः यज्ञगद्देवेभ्यवेददाः उत्क्षब्रह्मणस्मरैत्याः ब्रह्मणेव यज्ञस्मिदवाचे प्रैब्रह्मणस्मृशैत्याः प्रे एव यज्ञस्मिदवाचये त्याह यज्ञो वै सूदृदाः अच्छा वेरन्दनयः यज्ञः देवायज्ञन्नयञ्जनयित्याः देवानेव यज्ञनियः देवे यज्ञा वा गुण्डासामित्याह आभ्यामेवानुमतो यज्ञे मध्यमखस्थिरैत्याः यज्ञो वै मखः यज्ञस्य महस्य तद्येन हरे लोकाः एभ्य एव लोकेभ्यो यज्ञशिरसम्भरे च पृथगं हरे अवयमितादेव यज्ञस्य शिरसम्भरे मृत्खणादग्रे हरि तस्मान् मुत्खणः कर्ण्यगमः यत्यग्रहादेत्याः अस्यामेवाचाय यज्ञचिरः सम्भते वोर्जम् वा एम् पृथिव्यावरेका उद्दिहन्ते यद्वल्मेकम् यद्वल्मेकमपासम्भारः भवते वोर्जमेव्यावरुन्धे अथवा श्रोत्रमेव श्रोत्रज्ञश्येतत्पृथिव्याः यद्वल्मेकः अवधरा भवते यज एवम् वेद इन्द्रामित्रा यमृच्छ यत्र यत्र मराक्रमदाक्रमले धायिने ततो चैका नाभूते यतो चैका भवन्ते यज्ञायैव अग्निजाप्रजापते दैत्याः यगेव सशोन्प्राविशद तमेवावृन्धे पञ्चैजम्भारा भवन्ते यज्राम पशूना चर्म न संभ्याशुंशुचापय कृष्णाज आशुंशुर्पय तस्वत्श प्रा आशव कणीयाग सुमस्ंज ततो कस्य मेध्यम् परिवख्यायन्ते रक्षसामहत्ये महोहन्ते अपजलमेवास्मिन् दधरे उद्धरे परिश्रुते निरसन्त्ये वदन्ते तेजरे वास्मिन् दधादे मधुत्वा मधुलाकरोह ब्रह्मणैवास्मिन् तेजोदधादे च ग्राम्यानाम् पात्राणाम् प्रवादे ग्राम्याणि पात्राणि सुचार्पयेत् अर्मकपालेश्व एतानि वा अनुपजेवलीजानि तान् एव सुचार्पयते शर्कराभिः स्रगंसति सत्यये अथो सन्ताया अजरामेश्वरं एता वानोः एतजा प्रियदेवेन तनपादकं भजते यज्ञो वे कृष्णादिनम् यज्ञेणैव यज्ञकंसुंसजये परिश्रेकरोदे ब्रह्मवर्षस्य परिहेत्यै न कुर्वन्नभिप्राण्यात् कुर्वन्नभिप्राण्यात् प्राणार्पयेत् अपहाय प्राणये प्राणाम् च वेदाय न प्रवर्ग्यम् चानित्यम् चान्तरेयात् निरन्तरयात् दुष्कर्मा तस्मान् आत्मनो गोपीठाय तेजोगेवणः तेजप्रवर्यः तेजदेव तेजः समर्थयते मखश्च शिरोदेत्याह यज्ञो वे मखः तस्यैतच्छिरः यत्प्रवर्यः तस्मादेवमाह यज्ञस्य पदेश्चैत्याः यज्ञस्यत्येते पदे अथवा पुरुषे गायत्रेण त्वा छन्दसा करोमि इत्याह छन्दोभिनैवम् करोति त्र्यम् करोति प्रयजमे लोकाः येषाम् लोकानामाद्य छन्दोभिः करोति वेर्यम् वैच्छन्तागुन्धे वैर्येणैवेनम् करोति यदिदाभिनम् करोति दिव्यावृत्त्यै यदेव प्रियापुलिणा यज्ञमुखेन संवितम् यन्तम् करोति यज्ञपुरुषा संवितम् म् करोदे पुरुषे पुरुषवीर्यम् वीर्यसंविधम् अपरपितम् करोदे अपरमितस्यावरुध्ये परिग्रीवम् करोधे सूर्यस्य हरदाश्रायेत्याहय अश्वशे मेदे राजावत्यो वा अश्वस्य यो नित्वाय असौ वा वित्यावृता स्मः तस्य छन्दायम् छन्दाभिरेवेन्दो वेदे अत्यशयन्दायत्वेत्याह यजगेवास्मिन् ग्रहाय वारुणाभेद्धः ऐत्रेयवेशान्त्ये सिद्ध्यै त्वेत्याह यथायुजरेवेदिने देवस्या सुमर्तित्याह ेव्याणयत्याः अस्मादज्ञः सर्वादे उत्त्यक्षब्रह्मो प्रत्यक्षध्रुवथमित्याह प्रदेशिते ईश्वरो वा एषोवितो यत्प्रवर्गमन्वीक्षणे सूर्यस्य चक्षुषान्वेषक्ष इत्याह चक्षुषा वा वेधाय वृषवेत्यैत्ता भोत्येत्येत्याः इयम् वा ऋजः अन्धरिक्षकम् सासो असौ सुक्षतिः विषभोगिः इमानेवास्मै लोकान् कल्पयति अथवा प्रदक्षते इदमहोमानुष्यायणम् विषा वृषभत् ब्रह्मो हामेत्याह विषेवणम् वृषभ ब्रह्मर्यो हये विषयजराजन्यस्य ब्रूयाज विषेवैनम्बर्यो हरे वशुभिर्निवेश्वस्य पशुभिरेवैनम्बर्यो हरे असुव्यम्ब्छन्नम् आक्षणत्ये देवत्रागः अजक्षेरेणाच्छणत्ये परमम् वा एतद्वयः यजुरक्षीरम् परमेणैवैनम्ब यदाक्षणत्ये विदुषा व्यावृत्ते छन्दोभिराक्षणत्ये छन्दोभिर्वा एष क्रियते छन्दोभिरेव छन्दागस्याक्षणत्ये शृन्धिवाचमित्याः वाचमेवावृन्ध शृन्ध्यो जमित्याः ऊर्जमेवावृन्ध श्रन्ध्य अविरित्याः अविरेवाकः देवपुरस्करवर्घ्या सन्वेत्याः यथायजरेवैक्रह्म्य मोहोदघर्ममहिष्टिःत्याह एवा एतृ यद्ब्रह्मा तस्मादेव प्रतिप्लाच्यप्रदने आत्मानाद्ये यमायत्वा मुखायत्वेत्याह एता एतस्य देवेणकम् समर्थ्यैरे फलम् देभिः दे प्रोक्षये दे, तेज दे एवास्मिन् दृशाले अभिपूर्वम् प्रोक्षते अभिपूर्वमेवास्मिन् तेजो दृशाले पृष्टप्रोक्षये त्वया वृद्धियज्ञः असो मे धत्वायदान्वाः रक्षतावहत्ये अनपानम् प्राणानाकुम् सन्धत्ये पृष्टुपसतेर्गायत्रे दिवान्वाः गायत्रो हि प्राणः सन्तदमन्वाः प्राणापहत्यै यद्वरिमितानुभ्रूयात् अपरिमितमवृन्धेन अवर्मितान्वाः अवर्मितस्यावरुध्यै शुलो वा एतत्त्यज्ञस्य यत्र वर्यः भोजाः यन्मौ वेदोभवयेदेव यज्ञकृतिरः समर्धयते प्राणाभुले जहोदे प्राणानेवेयजमाने विधाने सप्तजहोदे सप्तवेषण्याः प्राणाः प्राणानेवास्मिन् विधाने देवश्चा च पितामध्वानक्त्याः तेन देवैल्ये पृथिवे यस्मिन् श्रे अस्याय श्रीलोवा एतत् यज्ञस्य यत्र वर्यः अग्निः सर्वा देवताः प्रलवानादेश देवताः स्वेव यज्ञश्रीरप्रधाय अप्रतिशीर्णाग्रम्भवते एतत् अतिर्शेत्याहं विधाय श्रेरस्त्वमहा ब्रह्मपारिणो वदन्ते हे देवावलऋक्विजः हेतदृशपोर्णमासुयोः अथ कथाः कायजमानायादुषो नाशाः पुरस्तादादे खलु वा अन्यो यज्ञः उपरिष्ट्यादादेः अनाधिष्ठेदायजो विष्याः एव यज्ञमानादिशोबन्धे आयुपुरस्तादाः कानम् पश्चाद श्रोत्रमुत्तहदः विपरिष्ठान् रानाने आत्मै समीचो ईश्वरो मा यदृशो नोन्मजितो स्थापयन्ते पनहरस्वादिभूरिपुत्रे देवामभिवधये इयम् वे मनोरस्वा सोपसदामे भो यामायगम् जयत्याः युगुम् अवजमेवास्मिन् रसादे शिरोभा यज्ज्ञस्य यज्ञवर्यः अलोकलोभाप्रवर्यः तस्य मल्लोहश्रयः ताः मरुद्वेत्याः वित्तयोपर्योहरे तस्मादधा वा वित्तमुष्णण्लोके रशेपर्योढः तस्मात्रा विजापर्योढः तस्माद्रामणे स जाते पर्योढः अग्ने दृष्टस्य यदः व्यञ्जङ्गदम् वा आचर यद्वैङ्गदाः परिषया भवन्ते भा एवावरुन्धे द्वादश भवन्ते द्वादशमादाः शा संवत्सरः संवत्सरमेवावरुन्धे अस्ति त्रयोदशमाध्याहो यत्रयोदशः परिषर्भवने तेनैव त्रयोदशमासमवृन्धे अन्तरिक्षस्यान्तर्जरथेत्याह व्यावृत्ते त्युपनिष्ठादिय अथो आद्यामेवेन मुखेतत्परिगृह्णादि अर्हन् नृपरिधायकानिधन्वेत्याः देवेन छन्देनान्यादत्त मधुमध्विधोदे प्राणवय प्राणमेव न्ते प्रिया वृद्धेज्ञः पुनः पर्यन्ते तत्संवर्ध्यन्ते तद्वाः प्रतिष्ठन्ते यो मे धर्मस्य प्रियान्दलव्रामले द्विम्भावे भवति एषा प्रियान्त यस्य पर्यते एतागम्भवान् तस्मात् आत्मनागापेधाय प्राणावेषन्धोन्वन्ते प्राणानामव्यन्वन्ते ओद्बन्धो वन्वन्ते स्वर्गस्य लोकस्य चमक्षे सर्वदान्वन्दे तस्मादेवम् सर्वदापवने अग्निष्टा मधुभे पुरस्था द्रोजेदिगाहित्रेण छन्दजयत्याह अग्निरेवेण मधुभे पुरस्था द्रोजेदिगाहित्रेण छन्दसा समारुजित आदिधमेवैतामाशास्ते इन्द्रस्कारत्रयदक्षिणदौरोदे ेन गुद्धैर्दक्षिणोरोचयति प्रैष्णभेणस्ते वरुणस्तादित्ये पश्चाद्रोजयजागरेण सन्दसेत्याह वरुणयेन आदित्ये पश्चाद्रोजयतु जागरेण छन्दसाह आदिमेवणम् माधव मध्यरत्रेनामासाश्वेय देवेन वरत्ताङ्गेण शम्भयत्याह ेश्वः रोचवाख्येषु देवेषु रोजेयाम् मनुष्येश्वत्याः रोचनेवेण सम्रा धर्मजस्तम् देवेष्वायुष्मायश्चे ब्रह्मवत्रस्य चेत्याः त्रिवाख्य देवे श्वायुष्मागश्चे ब्रह्मवत् दे त्रिवाहम् वनस्य श्वायुष्मागश्चे ब्रह्मवत् देवो यामित्याः श्वायुष्मागश्चे ब्रह्मवध्वेभे मृगशिरम् वैदेत्याः आदिनमेवतामाचाराश्च्यदेवेन विदभ्यरुदयित्वा जगाहम् वैदप्राभ्रूयाय अरोजुवाग्धर्यस्याः रोजगाद्धर्यवति रोजु एतद्यस्य यत्प्रवर्ग्यः देवा उपसदः पुरस्तादुपसदाम् प्रवर्ग्यम् प्रवृणक्ते देवास्वेव यज्ञस्य शिरप्रतिदत्ताते प्रवृणक्ते ये लोकाः एव लोकेभ्यो यज्ञस्य शिरोवृन्धे षट्सम्पद्यन्ते षड्वा ऋतवः ऋतुभ्य यज्ञस्य शिरोवृन्धे द्वादशकृतवः प्रवृणक्त्ये संवत्सरः संवत्सरा यज्ञस्य शिरोवृन्धे ऋतुर्विंशतिः सम्पद्यन्ते ऋतुर्विंशतिरधमासाः अर्थमादेभ्य एव यज्ञस्य शिरोवरुन्धे असौ खलु सकृदेव प्रवृत्यः ये बृहशिरः अग्नेष्टामे प्रवृणते यदावानवैयज्ञः यावानग्निष्टामः यावानेव यज्ञः तस्य शिरप्रतिशाले नोक्षप्रवृञ्जाय प्रजा वै वसो उत्थाने यदुःखे प्रजाम् वसोणस्य निर्दहे सर्वपृष्ठणङ्घ्ये पृष्ठामिवाच्युतम् चावयुन्ते पृष्ठैरेव स्वाच्युतम् चावयित्वा वरुन्धे अपश्यम् गोपामीत्याह प्राणो वे गोपाः प्राणमेव प्रजासुयादयिने अपश्यम् गोपामित्याह असौ आदित्य गोपाः स एव प्रजागोपायिने तमेव प्रजानाम् गोप्तायम् कुरुते अनिपद्यमानमित्याह न ह्येषु निपद्यते आज्रपराजपथिश्चरन्तमित्याह आजह्येषपराजपथिभिश्चरते सेजेश्रविशोचेर्वसान इत्याहे ये आह्यरवरेवर्तिभवने स्वन्तः अत्र प्रावेणमसुमाध्वेयेभ्याम् मसुमाधूजेभ्यामित्याह वासन्तिका वेवास्मार्दोकल्पयति समग्रलग्निना गजयत्याह ग्रेष्मादेवस्मार्दोकल्पयति समग्रलग्निना गजयत्याह अज्ञस्यैवैशोग्निना सङ्गच्छते स्वाहा समग्रस्तपदा गजयत्याह पूर्वमेवित उत्तरे दी। धर्ता वो विभाजव्या पारिषिवास्तों कल हृदय मनसे शैवास्तों कल्पये विविधे होंचे हात्रेवा लोकान सन्दे विश्वास भुवाम हैमन्तिका देवास्मार्धो कल्पयति दे। देवश्रोस्तेवघर्मदेवान् देवा पाहीत्याहशिरा देवास्मार्धो कल्पयति दे। तपोजाम् वाजमस्मै नियक्षते वायुममित्याह या वैमेऽध्यावात् सा तपोजाः तामेवावृन्धे गर्भादेवानामित्याह गर्भाक्ये च देवानाः पितामदीनामित्याह प्रजा वै मतयः आसामेत एव पिता यप्रवर्ग्यः तस्मादेवमाः पतिः प्रजानामित्याह पतिःकेशः प्रजानाः पतिः कवीनामित्याह पतिःकेशकवीनाम् सन्देवो देवेन स वित्रायति शशकं सौर्येनारुक्तेत्याहु देवादित्यम् प्रवर्ग्यम् शशकंशा आस्ते आयुर्दास्त्वमस्त्वभ्यम् घर्मवर्चोदाहसेत्याह आशिषमेवेतामाशात्याह बोधयत्येवैनम् न वेतेवकाशा भवन्ति अत्रयेत समः न भवेत् पुरुषे प्राणाः नाभिर्दशमे प्राणानेवणे तथा ते अथवादशाः अक्षराविराट अन्नम् विराड विराजैवान्नाग्निमबन्धे यज्ञस्य शिरो आक्षिद्यत तद्देवाहोत्राभिप्रत्यदसुः ऋत्युजावे एक्षन्ते एतावे होत्रा होत्राभिरेव यज्ञप्रतिदधादि ऋषितमवे एक्षन्ते ऋषिदाद्वै प्रजापतिप्रजासृजा प्रजानागम् सृष्ट्यै ऋषितमवे एक्षन्ते ऋषिदाद्वै पर्जन्या वर्षे वर्षगः पर्जन्या भवति सन्ते ऋषिदमवे एक्षन्ते रुषिता वै ब्रह्मवत्सरम् ब्रह्मवत्सविना भवन्ति अधीयन्ता वे एक्षन्ते सर्वमायुयन्ते न पत्रवे एक्षेत यत्पद्यवेक्षेत प्रजायेत प्रजान्तस्यै निर्द्रहेन् यन्नावेक्षेत न ना प्रजायेत नास्ये प्रजायते नास्यै प्रजान्यदहते पृष्टे मदेशपे ये यत्याह सपाक्षिणप्रजा प्रजायम् ते देवस्य प्रसवैरिशनामादत्ते प्रसोवाद्ये अश्विनाः बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ताः ओष्णास्ताभ्यामित्याह यत्यै आदिरेदित्येना स्नादेत्याहविदुष्कृत्यै विलये किलये सरस्पत्यै हेत्याह एतानि वा अस्ति देवनामानि देवनामैरेवै नामाह् असावेक्यसावेक्यसावेहेत्याह एतानि वा अस्ति मनुष्यनामानि मनुष्यनामी रेवै नामाह् रे। षट्सम्पद्यन्ते षड्वादवः अदित्या उष्णेषमसीत्याह यथा यजुदेवैत वाविनस्तेड इत्याह वाविदेवत्व वै वत्सः पूषात्वापावसृजत्वित्याह पौष्णा वै देवतया पशवः स्वयैवैनम् देवतया पावसृजये अश्वभ्यामृदाभयेत्याह अश्विनो वै देवानाम् भिरजोः ताभ्यामेवास्मैभ्यजम् करोति यस्तेऽश्नस्थे शोऽ यथा ब्रूयादमुष्मे देहेते तादृगेव तदे बृहस्पतिस्तोपचेदत्वित्याः ब्रह्म वै देवानान् बृहस्पतिः ब्रह्मदेवेनाम् प्रोचेदते दानवस्त्रेण वैत्याः नेध्यानेवैनान् करोति पुष्पकृतलोहिते नेत्याहव्यावृत्ते अश्रुभ्याम् बिण्स्त्रे बिण्ष्टे विन्वस्त्रयेन्वस्वेत्याः पिन्वदे इन्द्राय बिन्वस्ते इन्द्राय विन्वस्वेत्याह इन्द्रमेव भागधेयेन समर्थयते द्विरिन्द्रायत्याह तस्मादिन्द्रदेवतानाम् भोयिष्टभाक्रमः गायत्रेष्टभा सुजागतमशेषमानाधत्ते ेवनादत्ते सहोर्जभागेन भागमकः अश्विनौ वा एतद्यज्ञधरप्रतिदशाभ्यामेव पूर्वाभ्याम् वषक्रिया इन्द्रा अश्विनामुदसारेत्याः अश्विभ्यामेव पूर्वाभ्याम् वषट्कराजे अतो अश्विना वेहागधेयेण समर्थयेते धर्मम् पादवसभायडित्याः वसो नैव भागधेयेन समर्थयति यद्वषट् कुर्यात् यादया माशत्कारः स्यात् यन्नषट्कुर्यात् रक्षागम् च यज्ञकोहन्यः बडित्याः अराक्षमेव पषट्करोति नास्य यादयामावषट्कारो रक्षागम् जग्नते स्वाहासो यस्य रश्मय यो वाहस्य पुण्या रश्मिः तपः तस्मादेवैनम् जहोते पशुभेत्याहयत्येवैनम् सूर्यस्य तपस्तपेत्याहारजरेवेतत् द्यावापृथिवेभ्या अम्बा परिगृह्णामेत्याह द्यावापृथिवेभ्यामेवैनम् परिगृह्णाते अन्धरिक्षेण त्वपयच्छामेत्याह पर अन्धरिक्षेणैवेनोपयच्छते भर्तमर्हते देवानान्तांसेयमित्याह देवैरेवेणमसादत्ते यत्रश्चात् प्रभज्यपुरोपदे तेजातेजानुप्रदेहेत्याह तेजगेवास्मिन्द्रे विस्प्रामाहिकम्भेरन्तरक्षप्रामाहिकंसे पृशुविस्प्रङ्णामाहिकंसेत्याः हेत्याः आशुरमेवेतास्ते शिरोमा एतद्यज्ञस्य यत्र वैज्ञः आत्मा वायोः उद्यत्यमातनामान्याः आत्मन्नेव यज्ञस्य अप्रतिभाते अनबाणम् प्राणानाकम् सन्तत्यै पञ्चाः वान्तो यज्ञः यावानेव तस्य शिरप्रतिदधाते अग्र्ये त्वावसुमदे अस्वाहेत्याह असौमादित्यसुमान् तस्मादेवैनम् जहोदे सोमायत्त्वा रुद्रपदे अस्वाहेत्याह चन्द्रभावे सोमो रुद्रवान् तस्मादेवैनम् जहोदे वरुणायत्त्वादित्यपदे अस्वाहेत्याह अप्सुरे वरुणादित्यवान् तस्मादेवैनम् जहोदे बृहस्पदयेऽत्रा विश्वदेह्यावदे स्वाहेत्याः ब्रह्म वै देवाना बृहस्पतिः ब्रह्मण एवम् जहोति सवित्रेऽत्र भुमदे विभुमदेय प्रभुमदेवाजपदे स्वाहेत्याह संवत्सर वै सवितभुमान् विभुवान् प्रभुमान् वाजमान् राणो वे यमोस्वान्न तस्होदेदाभ्यो जोजते दश्व्यक्ष विराट अन्नम विराज विराजेवान्ना रोहिणाभ्यार्गन लोकमायन तद्रोहिणयाण पुर्रोहिणो दौहिणाभ्यामेवदभ्यजमानस्वर्गम् लोकमेति अहर्जोलकेरलाविषदाम् निर्ज्योदिर्जोयरागस्वाहारार्जोलकेरलाविषदाम् निर्ज्योदिर्जोयरागस्वाहेत्याह आदित्यमेवदमुष्कृस्कारा दात्रिया दा दा अवस्तात् तस्मादसावादित्यामुष्कृण्लोके हो दात्राभ्याः आधादक्षिणसदित्याः विश्वानेव देवान् प्रेनादे असौ दृष्ट्या एव दे। विश्वानादेवानयाभिधेयत्याः विश्वानेव देवान् भागधेयेन समर्धयति दे दे। स्वाहागृतस्य कर्मस्य मताश्विनेयत्याः अश्विनादेव भागधेयेन समर्थयति स्वाहाग्रियग्रिया इदभिरित्याह अव्ययैनम् धारयति असाभिदेवाकः अश्विना धर्मम् पादगुहादिपानवहाद्विवाभिरोतिभिरित्याह अश्विना वेदहागधेयेन समर्थयति अनुपान्द्यादामित्याहानुमत्यै स्वाहेन्द्राय स्वाहेन्द्रावह इन्द्रायुयुधेः आश्राव्याः धर्मस्य यजयति बहत्कृते यहोदि रक्षसानुपहत्यै अनुयुजि स्वकार धर्मपादनश्विनेत्याः पूर्वमेव इदम् उत्तरेणाभिगणादि अनुभवान् पृथिवी अवगम् जातामित्याहनुमत्यैव दिवेन पृथिव्या इत्याह यथा विजरेवेदते द्विविधा इमम् यज्ञम् यज्ञमिमम् द्विविधा इत्याह स्वर्गमेवैनम् लोकङ्गमेदि दिवम् यक्षान्तरिक्षम् यक्षपृथिवीम् पञ्चप्रदिशाक्ष्वेवत्याः देवैनम् प्रतिष्ठापयति यत् पिन्वदे पर्जन्या भवति तस्मात् पिन्ववानः पुण्यः यत्प्रान्पिन्वदे तद्देवानाः यद्दक्षिणा तत्पितृणाम् यन्मृत्यणाम् यदिङ्गे तद् रुद्राणाम् प्राञ्चमुदञ्चम् पिन्वयदे देवत्रागः असोकल सर्वादृशः पिण्यदे सर्वादशः समे सन्धे अन्तःपरिधिन्वयुदे ते यशोस्कन्धाय विषय विष्पेजमे यजमाजमाशि महिंडायामलयेना बाजु सामसाश सुष्ये तांडयेन्द्रिया भूद्ये तेत धर्मात्मायम् ब्रह्मा निधारत्याह ब्रह्मण्येवैनम् प्रतिष्ठापयति नवातस्कन्धयाज यद्यभितरे अमुष्यत्वा प्राणे सारयान् यूना सह ब्रोयाद्यन्विष्यायष्टे तैलेन सङ्गमयति स्वाहेत्याह या एव देवता पुरभागाः आभ्यय वैनम् जहोदे रामभ्यस्वाहेत्याः या एवान्तरिक्षे वाचः ताभ्य एवञ्जुहोदे पृथुदेभ्यस्वाहेत्याः प्राणावेदेव प्रजिदाः तेभ्यय वैनम् जुहोदे यावापृथिवेभ्यागस्वाहेत्याह यावापृथिवेभ्यामेवैनम् जहोदे पृथिव्या धर्म वेभ्यस्वाहेत्याः एवेद्वानः ते विदुलाघर्मः तेभ्य एवम् जहोति रुद्रे स्वाहेभ्याः रुद्रमेव भागधेयेन समर्थयति सर्वदः समनक्ते सर्वद एव रुद्रम् निरवदेते पुरम् वेक्षेरा चक्षुश प्रमाणिग्र सस्मा अबी पोमान्धो रात्रिये वापेश अग्नेस्वायुर्मेदावृत्यावास्वर्चा रात्रियां माप केशाच्त स्वायुर्मेदावृत सामांजि आयुरेवन्मर्चो तथा अज्ञो निर्ज्योतिरज्ञस्वाहासोर्योर्ज्यो निर्ज्योतिसौर्यस्वाहेत्याह यथायुरेवेत ब्रह्मवादिना वसन्ते होतव्यमग्निहोत्रायुह्यात् अयथाय यन्नजुहुयात् अग्न्यः पराभवेस्वाहे ते महोदव्यम् यथा पूर्वमाहुते जुहोदे नाग्न्यपराभवजे हृदयम् हविर्मधु अविरत्याः हृदयद्येवीतमेज्ञावित्याह प्राणो वा इन्द्रतमोऽग्निः प्राणगेवैनमिन्द्रतमेग्नो जुहोदे यदा नमा हिगुंसेत्याः हरिगुंसारे अश्रामजयदेवघर्ममधुमजवदपि समदैत्याः आशुरमेवेतायै तेजसा वा यदेव व्यध्यन्ते ये अत्र वर्गेण चलन्ति प्राष्टन्ते तेजगेवात्मन्वधरे समत्करणमाभियात् न रामामुपेयात् न मन्मयेन विभेद नास्ति राममुच्छिष्टम् बिबेद तेजगेव तत्सर दृश्यते ज शौर्य सत ये नोपालगे सचार्योग विभ्राज शौर्येहौर्यस्तस्त साधे नक्षत्रे सायम् एता वा एतस्य देवताः न किम् समर्थयते धर्मयातेर्जुहोदे छन्दाभिरेव श्रेभ्यो लोकेभ्युचमवेजतेहोदे अभेक्षेयते लोकाः एभ्यगेव लोकेभ्युचमवेजतेहानुमत्ये दिवस्त्वापरस्पा यायित्याह दिवगेवे माकान्दाधार ब्रह्मणस्त्वापरस्पा यायित्याह एष्वेव लोकेषु प्रजादाधारा प्राणस्य त्वापरस्पा यायित्याह प्रजास्रेव प्राणान्दाधार श्रो वा एतद्यज्ञस्य यत्र जिह्मयज्ञस्य प्राञ्चयते पुरस्तादेव यज्ञादयते तस्माद्रावानित्यैर्त्यवहरन्ति सा आत्मानभेवैनसदनम् करोति सात्मामुष्मल्लाके भवति एवम् वेदा औदुम्बराणि भवन्ति ऊर्वा ऊर्जमेवावृन्धे वर्तनावान्विद्या यज्ञकम् रक्षागुम् साम्नाः प्रस्तोतान्वैदे सा भवे रक्षोः रक्षतानुवहत्ये तिर्निधनु वेदे त्रेजिमे लोकाः येभ्य एव लोकेभ्यो रक्षादि वहन्ति पुरुषपुरुषो निधनुपेदे पुरुषपुरुषो हि रक्षस्ति हते यत् पृथिव्यामुद्वादयेत् पृथिवीम् सुचार्पयेत् यदप्सो अपसृचार्पयेत् यदो च ओषधे सुतार्पयेत् यद्वनस्पतिष अनस्पते शुचार्पयेत् हिरण्यम् विधायोद्वादयते अमृतम् वै हिरण्यम् षजू सुनःपर्य षत्संप्य ऋतव ऋतुभरवाषजंग सदेकिे इतन ऋतुवर्ग तस्मादेवत्याः भ्रादुर्व्यावनत्यैकत्रेण पूरयति ऊर्ग्वा अन्नाद्यञ्जते ओर्जेवेण अन्नाग्ने समर्थयति अनशना इव भवति एवम् वेदन्नामा दुर्ज्याकरणम् सर्व इत्याः सेतन्महिमानम् वन्धिम् वन्ध्युताजत्य समवायुषादम् प्राणेन आशितमेवैतामाशायोस्मान् दे च वयम् दृष्म इत्याह अभिधारेलः अचिक्रसदृशाः गृहारे महान् मेत्रानुरश इत्याह स्थौत्येवेन मेतलमुद्रयाः सामेवेन योनि गमयते नमस्तेऽस्तु मामारिगुम् धेत्याहरिगुम् धाये विश्वावचकम् स्वामगन्धर्ममित्याह यदेवास्य क्रियमाणस्यान्तर्यन्ते तदेव शैतेनाप्यायते विश्वावचरभिरन्वाग्नात्याह पूर्वमेवोदितम् उत्तरेणाभिगणादियो हिन्वानो धेयिन्ना व्यादित्याहोनेवास्मे तो कल्पयते प्राणाम् गन्धर्वा अमृतानि वा चरित्याः प्राणा वा अमृताहाः प्राणानेवास्मै कल्पयति दे। एतत्त्वम् देवकर्म देवो देवानुपागा इत्याह देवो क्लेषदम् देवानुपैति इदमहमनुष्यो दे। मनुष्यानित्याह्यो हि <laughs> एषदम् मनुष्यानुपैः ईश्वरा प्रजाम् सामेः प्रजायस्पोषेणेत्याह प्रजामेवमात्मम् धत्ते सुमित्राणावकोषधेः सन्विद्याः आशुरमेवैतामाशास्ते दुर्मित्रास्तस्मै भूयासुर्योः वैष्टम् च वयम् दुष्मैत्याह अविचारयवा शेषः यत्र भासयति पुरित्यम् चित्तमिति सौरेभ्या विभ्याम् पुनरेत्यकारः पत्यै भवति अयम् वै लोकोकायः पत्यः अस्मिन्नेव लोके प्रतितिष्ठति असौखलपाः नित्यस्वर्गो लोकः यत्सौरे भवतः ते नैव सुवर्गान् लोकान्नै प्रजाभयम् वै देवाः शुक्रम् वयो लुक्त्रान् तदेव भो तानि शुक्रियाणि सामान्यभवन् ते तेषां तानि शुक्रियजोगिष्य भवन् शुक्रियाणाम् वा एतानि शुक्रियाणि सामयवम् वा एतयोरन्यवानामन्यत्पयः यद्गोप्पयः रत्साम् नयः यथा एपयः तर देवा नाम तद्देना पयतेरपय चल प्रजापतिदेन् पैसा नागर समर्थय तेसाक्षा प्रवर्ग भक्ष्यं विदुष प्रवर्ग प्रवर्जते तेजस्काम से उत्तरवे एजप्रवर्ग्यः तेजदैव तेजस्तमर्थयते उत्तरवेद्यामुद्वासये अन्नकामस्य शिरो वा एतद्यज्ञस्य यत्र वर्ग्यः उत्तरवेदि शेखम् सन्ददात्यन्नाद्याय अन्नादयेव भवति यत्र प्रेदमुद्वासनम् वयागम् च वर्यासदे परिवेदायम् समाहम् पर्यावयागस्यासदे तस्मादुत्तरवेद्यामेवोद्वासयेत् प्रजानानाङ्गोपेधाय पुरो वा पश्चाद्वोद्वादयेत् पुरस्ताद्वा एतज्यो विरजयते तत्पश्चान्निम्रोजते स्वामेवेन यो निमनोद्वासयते अपाम् मध्यमुद्वासयेत् अपाम् वा एतन्मध्याद्यो विरजायतप्रवर्ग्यः स्वयेवेन तस्याः दिश्युद्वाधयेन एष वाग्निवैश्वानरः यत्रवर्गः अग्ने वैनम् वैश्वानरेणाभिप्रवर्तयति औदुम्बर्याम् शाखायामुद्वाधयेदुम्बरः अन्नम् प्राणः सुघर्मः इदमहममुष्यामुष्यायणस्त प्राणविदहेत्याह देवास्य प्राणविलहरे कार्यकात्यमाचे यत्र दर्भा उपैकसन्तः स्युः तदुतादयष्टिकामस्य एतावामनोध्यावर्यवा यद्दर्भाः असौखनुपादित्यविदावृष्टिमुदीरे असहदेवास्मादित्यावृष्टिर्णयच्छते ताः बोलेनाधन्मनायन्ते प्रजापतिसम्भ्रियमानः सम्राज् सम्भृतः धर्मप्रवृत्तः महारेह उद्वासिकः अशोकलवा वेदादित्यः यत्रवर्ग्यः स एतानि नामान्यगुरुता यगेवम् वेद विदलेन नाम्ना ब्रह्मवादिना वदन्ति योगेव्यथा नाम पचते पुण्याः किम् वेदकस्मै कामयते पुण्याःस्मै कामयन्ते यगेवम् वेद तस्मादेवम् विद्वान् धर्मै निवारयेत सम्राटदिनक्तम् एते वा एतस्य प्रिये धनुवौ एते अस्य प्रिये नामणि प्रियेणम् तनुवा प्रिय नाम् न समर्थयति कीर्तिलशिरोगच्छति जनता मायुधा गायत्री देवेऽभ्योपाक्रामदे तान् देवाः प्रवर्गे दैवानुप्यभवन् प्रवर्गे गायाक आस पयंड ुतिथे वा वाच्येव वाचम् दशादि तस्मादसृर्वा एषद्वाददशाविहितः यत्रवर्ग्यः यत्राग्रवकाशेभ्यः तेन प्रजासृजता यतोर्धमवकाशेभ्यः ते तेनान्नमसृजता अन्नम् प्रजापतेः प्रजापतिर्वा वैषः सविता भोत्वा प्रथमे सम्प्रते तेन कामागुम् यद्वितीयेऽहम् प्रवृद्यते अग्निर्भूत्वा देवानेदि यत् तृतीयेऽहम् प्रवृत्यते वायुर्भूत्वा प्राणाने यच्च तथ्येऽहम् प्रवृत्यते आदित्य भूत्वा रश्मीनेदि यत्पञ्चमेऽहम् प्रवृत्यते सम्भ्रमा भूत्वा नक्षत्राणेति यच्छष्ठेऽहम् प्रवृचते ऋतुर्भूत्वा संवत्सरमेदि यत्सप्तमेहम् प्रवृद्यते धा भूत् ठक् मेति यमेहन प्रवचतेजुर्भूं गायत्री में यमेहं प्रवचते मित्र भूत्वाईमाशमेहुना भूत्वा विराज में यदेकादशे अहम् प्रवचते इन्द्रभूत्वा तृष्टुभमेदि यद्वादशे अहम् प्रवचते सोमा भूत्वा विद्यामेदि यत्परश्चादपशदाहम् प्रवर्चते तस्मादितः पराङ्गमोन् लोकागस्कवन्येति त्रिपरिष्टादुपशदाहम् प्रवृद्धते तस्मादमतो लोकाकृष्ण वन्येति एवम् वेद अयि मदपति शरण्यस्तम् लोकाः शीले Om shant shanti shanti dheh om